अथ एकत्रिंशोऽध्यायः वैशम्पायन उवाच तथैव सह देवोऽपि धर्मराजेन पूजितः महत्या सेन या राजन् सशूरसेनान् कार्त्स्न्येन पूर्वमेवाजयत् प्रभुः मत्स्यराजं च कौरव्यो वशेचक्रे बलाद् बली अधिराजाधिपं चैव दन्तवक्रं महाबलं जिगायकरदं चैव कृत्वा राज्ये सुकुमारं वशे चक्रे सुमित्रं च तथैव परमत्स्यांश्च व्यजयत् स पट्चरान् निषादभूमिङ्गोशृङ्गं पर्वतप्रवरं तथा तरसैवा जयद्धीमान् श्रेणिमन्तं च पार्थिवं नरराष्ट्रं च निर्जित्य कुन्तिभोजमुपाद्रवत् प्रीतिपूर्वं च तस्यासौ प्रतिजग्राहशासनम् ततश्चर्मण्वती कूले जम्भकस्यात्मजं नृपं ददर्श वासुदेवेन शेषितं पूर्ववैरिणा चक्रेतेन स सङ्ग्रामं सह देवेन भारत सतमाजौ विनिर्जित्या दक्षिणाभिमुखो ययौ सेकानपरसेकांश्च व्यजयत्सु महाबलः करं उपादाय रत्नानि विविधानि च ततस्तेनैव सहितो नर्मदामभितो ययौ विन्दानुविन्दावावन्त्यौ सैन्येन महतावृतौ जिगाय समरे वीरावाश्विने यः ततो रत्नान्युपादाय पुरं भोजकटं ययौ तत्र युद्धमभूद्राजन् दिवसद्वयमच्युता स विजित्य दुराधर्षं भीष्मकं माद्रिनन्दनः कोसलाधिपतिं चैव तथा वेणातटाधिपम् समरे तथा का सकोसलाृपकयां सेरंबका युधी मारुधं च विनिर्जित्या रम्यग्राममथो बलात् नाचीनानर्बुकांश्चैव राज्ञश्चैव महाबलः तां स्तानाटविकान् सर्वान जयत्पाण्डुनन्दनः वाताधिपं वशे चक्रे महाबलः पुलिन्दांश्चरणे जित्वा ययौ दक्षिणतः पुरः युयुधे पाण्ड्यराजेन दिवसं न कुलानुजः तं जित्वा समः प्रययौ दक्षिणापथं गुहामासा दयामासा किष्किन्धां लोकविश्रुताम्